दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तथा राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः चराचरगुरुः श्रीमान् वृतः सर्वसुरैस्तथा ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य च ब्रवीत् ब्रह्मोवाच प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रता वरं वरय भद्रन्ते यथेष्टं काममाप्नुहि हिरण्यकशिपुरुवाच न देवासुरगन्धर्वा न यक्षोरगराक्षसाः न मानुषाः हन्युर्मा देवसत्तमा ऋषयो वा शपेयुस्तपसायुक्ता वर एष मया